गणेशपुराणं क्रीडाखण्डम् अध्यायं 21 क उवाच शृणुद्विजमहाश्चर्यं कथ्यमानं मया तव विनायकस्य चरितं सर्वपापहरं नृणाम् अम्भासुरस्य यो मूर्धा सगदो निजमन्दिरम् भ्रमराया निरखी सामोधयत प्रसुप्ता कांचने तोदायांगणमा पौत्र शिरो निरीक्ष्य मूर्चिदति भुवि निघ्नदी निजवक्ष कराभ्यां शोकनर्भरा निपतत खिन्ना नागा पत्नी विभिन्न वलया छिन्न कूर्प तुम्य दृश्यादृश्य महत्त्र लुढ़ती भुवि विह्वला निषिध्यम सखिभिर्भ्रातृभिस्वनैरपी मुहूर्ते प्रबुद्धा सा किञ्चिद्वक्तुं प्रचक्रमे उद्धाय च कराभ्यान्दो निजका न पुनः येनेयं पृथिवी सर्वात्रासिदा सामरावती मूर्धना सहस्रं शेषस्य भ्रूकटाक्षेण कम्पितम् येन राज्येऽभिषिकृ तौ देवान्तकनरान्तकौ यस्य कवेडिदमात्रेण रोदसी कम्पिता भृष्यं सकधं पदिदकुत्र पथितः कुत्र निहदः केन वा सुतः दृष्ट्वा कम्पितःकालः स निधनं गदः एवमाक्रान्तदीदिना विवत्सेव पयस्विनी एवं विलपदीं तां दुन्यषेधयत्सखी जनः न दृष्ट्वा मृतेन सह वै मृतिः अधिशोकेन शोकोऽग्न्यप्राप्यते मूढजन्तुभिः यदि स्नेहेन पुत्रत्वं शोचस्येषस्य हितं कुरु चारान् प्रेषय वृत्तान्तग्रहणायास्य सर्वतः दह्यतां मस्तको मन्द्रैरेवमस्य हितं कुरु सुह्रदामश्रुपदिदं प्रेदस्य तन्मुखे पतेदत्येन न त्याज्यमित्याहुः परमर्शयः एवमाकर्ण्य तद्वाक्यं सोवाच तां सखी मृषा अयं मूर्ध्नो दाहयिष्याम्यमुं तस्मास्ताप्यतां तैलमध्यदख सराक्षसी राक्षसी राक्षसवर्ययुक्ता समाययौ राजपुरीं निहन्तुं विनायकं तं निजरूपगोपिनी पदङ्गपत्रीव धनञ्जयान्दिकम् आगदातिदिरूपेण भासयन्दी दिशोदश अदिलावण्यनिलया अदिलावण्यनिलय सर्वालङ्कारशोभिनी दाडिमी बीजदशना बिम्बोष्टी तनुमध्यमा विलसत्पद्मनयना मुक्ता वीरामुरे दृष्ट्वा तादृशीं नृपः सत्मगां मनसा कामयन्ति यदा लिंगन लिङ्गनचुम्पने तर्कया मासुरपरे रम्भा किं नु तिरोत्तमा मेनका वा चीवा नागीयक्षी शिवा उर्वशिवारधीराज्ञी कश्यपश्यादितिर्नु किं ज्ञात्वा दुराजपत्नीं तां प्रणनामादितिं मुदा पूजयामास सौभाग्यद्रव्यैर्भूषां सुकादिभिः उवाच च सुचार्वङ्गी महाभाग्येन दृष्टासि देवजननीमया देवजननी मया विनायकप्रसादेन क्वान्यधा दर्शनं तव राज्ञीमेवं ब्रुवन्तीं तु साश्रुकण्ठावदध्वचः अदितिरुवाच मम बालो बहुदिनं स्थापितः कुत्र अत्युत्कण्ठतया शुभ्रो दर्शनार्थमिहा गदा स्त्रीणां स्वभावं जानासि मायाव्याकुलचेतसां शोकसन्दप्तगात्राकं तमालिङ्गामि चार्भकं तत्संसर्ग सुशीताङ्गी प्राप्स्ये सन्तोषमुत्तमम् इति तद्वचनं श्रुत्वा सादरा सा सम्भ्रमा गवेषितुं तु तं बालं राज्ञी दूदानचोदयद अन्ये चक्ष्युकाशिराजं कश्यपस्त्रियमागतां स स्नात्वा गृहमागत्य तां दृष्ट्वा हर्षमापः तां प्रणम्य महाभक्त्या प्रोजे बद्धाञ्जलिर्नृपः मे राज्यं जन्म पितरौ धनम् दृष्टिश्रुतं तपः दृष्ट्वा शक्रिर्देवमादा जगज्जननकारिणी न शक्रिर्वर्तते सम्यक् वर्णिदुं गुणान् मम बालो विनायकस्तेयं शक्रादधिकविक्रमः अवधानान्यनेकानि कृतानि बहुधा सुरैः अशक्यानि मया वक्तुं रक्षसां निधनानि च कस्यापि वर्णितुं नास्ति गुणानां शक्तिरल्पिका विश्राम्यतां क्षणं मादर्मम भाग्यं महत्तरं पतनेन हदा माया अपरीक्षितेन वपुषा बालस्ते वसते सुखं त्वं किमर्थमिहा यादा यादाचेत्थीयदां क्षणम् निवृत्तेस्मिन् विवाहे दुः प्रापयिष्ये उभावपि सोवाच किमिदं भाषसे राजन्वियोगादस्य मे भवद महान् खेदो न च सुखं लेभे क्वापि स किञ्चन क उवाच एवं आगतो विनायकः प्रेषितो बालकैसर्वैरागदा जननी तव सा लिलिङ्गतदो बालमश्रुपूर्णा मुदा जगौ चिरकालं स्थितोस्यत्र मां विहायाधिनिष्ठुर त्वद्वियोगेन संदप्ता गदा सर्वं विहाय च जीवितांशां परित्यज्य त्वदर्थे तप अधिक्लेशेन लब्धोऽसि तान क्लेशान्वेति चेश्वरः विना त्वया क्षणो मेतो युगकल्पसमोऽभवद एवं लाघववाक्यासौ दुष्टभावेन भामिनी अधिप्रेम बलात्सादं कडिदेशे दधारः सोऽपि तच्चेष्टितं ज्ञात्वा गस्तस्याः परिचिन्तयन् गूढाभिसन्धिस्ताम् प्रोचे पूर्वं किं मे त्वया ह्रदम् एवं तस्मिन् ब्रुवत्येव लड्डुकं स तदो ददौ अस्मिन् ददौ अतेऽस्मिन् पुनरन्यं ययाचे लड्डुकं काशिराजश्च पत्नी च प्रार्थया मासतुस्तदा उत्तिष्ठोत्तिष्ठ मातस्त्वं सबालाभोजनं कुरु यावदुत्तिष्ठते साधु तावद्रुद्धार्भकेण सा गिरीन्द्रसारवपुषा सा तदो विह्वला भवत मुञ्जमुञ्जेदित्तं प्राह मादाहं तव बालका। बहु कालेन बालक बहुकालेन दृष्टुम् त्वामागदा स्नेहपाशदः कथं चूर्णयितुं मां त्वमुद्यतोऽसि गिरिर्यथा कराभ्याम् नुनुदे सादं तावन्निद्रां ययोचसः प्रसार्य चरण हस्त श्यासो्वासपरायण यदि राज्यषेधत्तापीडिता कुरुत्वं जननी सती बालकं केजि चक्रु कुण मन बुद्धापितुं चालितुं वा सर्वे नाशक्नुवंस्तदा प्रार्थयामासुरपरे बालं राजीवलोचनम् अनुक्रोशं कुरु शिशो जननी ते मरिष्यति चालयाम सचरणौ हस्ते साध साधशिरोधरां किमिदं क्रियते बाल पितरं किं वदिष्यसि एवं वदत्सु लोकेषु सा मृता धनिचरी दशयो जनदेहेन व्यापितम्भूतलं तया पलायन केचित् तां दृष्ट्वादि भयानकां ययुकेजिच तां द्रष्टुं जनवृत्तयः राजा च विस्मितस्तत्र जनः सर्वे विलोक्यताम् कथं कपडरूपेयमागदा बालकादिनी ऋषिपत्नीस्वरूपेण ज्ञादान राक्षसीति च ज्ञानमस्य सामर्थ्यं च विलोकितम् यदि ब्रुवाणास्तु नरास्तत्समीपं मुदायुः बालमुद्दाप्य तस्यास्तु पुष्पभारसमं जगुः अपने येदि तेऽप्याहुर्दुष्टा दुष्टस्वरूपिणी परस्यानिष्टमिच्छेद्यः स एव निधनं व्रजेत तुस्तु परिपूज्यैनं काशिराजो जना अपि ऋषयो लोकपालाश्च भक्त्या देवं विनायकं नादस्त्वमसि देवानां मनुष्यो रग रक्षसाम् यक्षगन्धर्वविप्राणां गजाश्वरथपक्षीणां बोधभव्यभविष्यस्य बुद्धेन्द्रियगणस्य च हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहवोः अर्धस्य कार्यजातस्य लाभहान्योस्तथैव च स्वर्ग पादाल जलधे नाम नाम च च पृथिव्यालधेरपी नक्षण ग्रहाचा वीरुदा वृक्षाण सी बाजन उत्पत्ति स्थित संहार कारिणे ते नमो नम पशूना पदए तोभ्यं तत्त्वज्ञानप्रदायिने नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे नमस्ते ब्रह्मरूपाय नमो नन्दस्वरूपिणे मोक्षभेदो नमस्तुभ्यं नमो विघ्नहराय नमो भक्तविनाशाय नमो भक्तप्रियाय अधि दैवाधिभूतात्मां स्तापत्रयहराय ते सर्वोत्पादविघाताय नमो लीलास्वरूपिणे सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षायते नमः अदित्या जठरोत्पन्नविनायक नमोऽस्तु ते परब्रह्मस्वरूपाय नमः कश्यपशो नवे अमेय मायान्विधविक्रमाय मायाविने मायिकमोहनाय अमेय मायाहरणाय माया, माया, माया, माया। महाश्रयायास्तु नमो नमस्ते एवं स्तुत्वा तुदे सर्वे ययुत्स्वं स्वं गृहं मुदा त्यक्त्वा तां राक्षसीं चित्वा खण्डशो दुरधपुराद य इदं पठते स्तोत्रम् त्रिसन्ध्योत्पादनाशनं न भवन्ति महोत्पादा विघ्नाभूतभयानि च त्रिसन्ध्यं यः पठे स्तोत्रं सर्वान् विनायकः सदा तस्य रक्षणं कुरुते न ख इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते राक्षसी वधो नामयिकविंशतितमोऽध्यायः ॐ